श्रीमद्भागवतमहापुराणं दशस्कन्दम् असाष्टचत्वारिंशोऽध्यायः भगवान् का कुब्जा और जी के घर जाना शेषोकुवाच अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः सैन् सैरन्ध्याः कामतप्तायाः प्रियमेच्छन् गृहं ययौ महार्होपस्करैराढ्यं कामोपायोपविहितम् मुक्तादाम पताकाभिर्वितान् शनाशनैः धूपैः सुरभिर्भिर्दीपैःस्रग्गन्धैरपि मण्डितं गृहं तमायां तमभीक्ष्य शासनात् सद्य समुत्थायि जात शभ्रमा शुभ्रमा यथोपसङ्गम्य सखीभिरच्युतं सभाजयामासदासनादिभिः ततो दुर्व्याम तथोद्धव साधुतयाभिपूजितोऽन्यसीदुदुर्व्यामभिमृश्युचासनं कृष्णोऽपि तूर्णं शयनं महाधनं दिवे सलोकाचरितान्यनुव्रतः सामज्जनाले पदुकूलभूषणसगन्धताम्बूलसुधासवादिभिः तथाजितात्मोपससारमाधुवं सविडलीलोऽस्मितविभ्रमेक्षितये हूय कान्तां नवसङ्गमह्निनां विशङ्कितां कङ्कणभूषिते करे भृगय्यसय्याम् अधिवेश्य रामया रे मेणुले पार्पणपुण्यलेशयाम् सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ति दोर्भ्यां स्नान्तर्गतं परिरम्भकान्तम् आनन्दमृतिमजहादतिदीर्घतापम् सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् अङ्गरागार्पणे नाहो दुर्भगेदमियाचत आहोषतामिह प्रेष कतिचिन्मयाम् रमश्वानौ सहेतक्तुं शङ्गं ते बुरुहे क्षण तस्यै कामवरं दत्त्वा मानयित्वा च मानदः सहोद्धवेन सर्वेश्वधामागं समाराध्य विष्णुं सर्वेश्वरेश्वरं यो वृणीते मनोग्राह्यम् असत्त्वाङ्कुमनिशिशौ अक्रूरभवनं कृष्णशह रामोद्धव प्रभु किञ्चित् किञ्चिषयन् प्रागादक्रूरप्रियकामया स तान् नवश्रेष्ठान् श्रेष्ठानाराद्वीक्ष्य सुबान्धवान् प्रत्युत्थाय प्रभुदितः परिष्वद्याभिनन्दत न नाम कृष्णं रामं च रामं च स चैरप्यभिवादितः पूजयामास पूजयामासविधिवत्कृतासनपरिग्रहान् पादावने जनिरापो धारय शिरसानपम् अर्हलीणाम्बरैदिव्यै गन्धस्रग्भूषणोत्तमये अर्चित्वा शिरसानम्य पादामङ्कगतो मृजं प्रश्रयावनतो क्रूर कृष्णरामावभाषत दृष्ट्या पापो हत कंसशानुगोमामिदं कुलं भवद्भ्याम् उद्धृतं कृच्छा दुरन्ता च समेधितं युवां प्रधानपुरुषौ जगद्धेतु जगन्मयौ भवद्भ्यां न विना किञ्चित् परमस्ते न च परम् आत्मश्रेष्ठमिदं विश्वं मन्वा विश्व स्वशक्तिभिः दीयते बहुधा ब्रह्मन् श्रु श्रुतप्रत्यक्षगोचरम् यथा हि भूतेषु चराचरेषु मह्यादियोनिषुभ्रान्ति नाना एवं भवान् केवल आत्मयोनिषु आत्मात्मतन्त्रो बहुधा विभाति त्रियस्य तोलुं विश्वं धजस्तमः सत्त्वगुणेषु शक्तिभिः न बध्यते तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्वचबन्धहेतु देहाद्युपाधेरनिरूपितत्वाद्भवो न साक्षान्नभिदात्मनः स्यात् अतो न बन्धस्तव नैव मोक्ष शातां विवेकः तयोदितोऽयं जगतो हिताय यदा यदं वेदपदपुराण नाद्येतपाखण्डपथैरसद्भिर्तदा भवान् सत्त्वगुणं बिभरति तं प्रबोध्य वसुदेव गृहे वतेन स्वांसेन भारम् अपनेतुमिहासि भूमे अक्षौषिणी शतवधेन सुरेतरां स राज्ञा महुष्य च कुलस्य यशो वितन्वन् अद्ये स नो वसत्य सर्वदेव पितृभूत निेवमूर्ति यत्पादशौचसलिलं तु जगत्पुनाति स त्वं जगद्गुरुधोक्षजया प्रविष्ट कपण्डितपरं शरणं समीयाद् भक्तप्रियादित गिरस्हृदकृतज्ञात् सर्वान् ददाति सुहृदो भजतोऽभि कामान् आत्मान मय्योपचयापचयौ न यस्य दृष्ट्या जनार्जनभवानि ह न प्रतीतो योगेश्वरैरपि दुरापगति सुरेशै छन्द्यासु न सुतकलत्रधनाप्तगेह देहादिमोहरसनां दवदीयमायाम् श्रीशोकुवाच इत्यर्चितसंस्कृतस्य भक्तेन भगवान् हरिः अक्रूरं सस्मितं प्राह गिरिभिः सम्मोहयन्निव श्रीभगवानुवाच त्वं नो गुरुपितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा वयं तु रक्ष्याः पूष्याश्च अनुकम्प्याः प्रजाशिव भवद्विधा महाभागानुशेव्या अर्ह सत्तमाः स्ेयस्कामेनभिर्नित्यं देवा स्वार्थान् साधवः न हंमयानिर्थानेन देवामृच्छलामयाः ते पुनन्त्युरुकालेन दर्शनादेव साधवः त भवान् श्रीताम्बेन श्रेया श्रेयश्चिकृषया जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाभयम् पितर्यो परते बालासह मात्रा सुदुःखिताः आनीता स्वपुरं राज्ञा वसन्त इति शुश्रुव तेषु राजाम्बिका पुत्रो भ्रातृपुत्रे सुदीनथे तमू वर्तते नूनं दुष्पुत्रवशुं गोन्धते गच्छ जानीहि तद्वृत्तम् अधुना साधुसाधु विज्ञाय तद्विधास्यामो यथा संसृहृदाम्भवे इत्यक्रूरं समादिश्य भगवान् हरिरेश्वरः शङ्कर्षणोद्धवाभ्यां वै तत श्वभनं भवनं जयौ एषे मद्भागते महापुराणे पारंशां चैतायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः